मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं तर्टित्रि तुलसीसमर्पणवर्जनवर्णनम् श्रीगणेशाय नमः दक्ष उवाच अज्ञानेन महायोगिज्ञानेन तुलसीयुधं पूजनं गणनाथस्य कृतं तस्य फलं वद श्रुत्वा कथामृदं त्वत्तो न तृप्तोऽहं भवामि भोः अहो गणेशभक्तिर्वै दुर्लभा नात्र संशयः मुद्गल उवाच अत्रते ते कथयिष्यामि इतिहासं पुरा भवं श्रवणात् संशयः सर्वो नाश्यं यास्यदि तत्त्वदः ब्राह्मणः कोऽपि दुर्बुद्धिर्बभूवे काश्यपे कुले स तु नित्यं तुलस्या पूजयद्धठाद अन्ये तत्र द्विजास्तं वै वारयन्तो विशेषतः न वाक्यं जगृहे तेषां ज्ञानं बौद्धं खलो ब्रवीद गणेशः सर्वरूपश्चेत्कुतस्तत्र प्रवर्तते विधिनिषेधकाद्यं हि वदेदक्रियात्मकाः तदसर्वे भयोद्विघ्ना बभूवुस्ते द्विजोत्तमाः परस्परं समुचुर्वै गणपत्याः प्रजापदे अहो गाणेश्वरे देहे तुलसी मस्तके धवा दृष्ट्वा सद्यश्च निष्कास्य गाणपत्यैर्विशेषतः अन्यैरपि न सन्देहो नो चेन्नरकगामिनः उपानदादि संयुक्तैरशुचिभिस्तदप्यहो तत्र विलम्बभावेन पापभागी नरो भवेत् किं कर्तव्यम् द्विजैरन्यैर्दुष्टोऽयं कथ्यताम् द्विजाः यथा वज्रेण पीडां तु पर्वतादयः तथा विघ्नेश्वरसाक्षात्तुलस्य पीडितो भवेत् तद तदा सर्वैर्विनिश्चित्य स गाणे तदा बहिष्कृतो महापापी स्वगृहे तादृशे रथः तदस्वल्पेन ममार ममारकाश्यपाधमः नरकेषु च दमयामा पादयामासुरञ्जसा एककल्पसमं का कालं नरकेषु स्थितो भवद क्रमेण सकलान् भुक्त्वा राक्षसो भूत्सुदारुणः सदाक्षुधात्समाविष्टो दाहरोगादिसंयुतः दाह। अशक्तःसर्वकार्येषु वनेषु विचचारः ये कता तत्र गार्ग्यश्च समायादो निजेच्छया गणेशभक्तमुख्यः स महायोगी प्रजापदे तम् दृष्ट्वा राक्षसो दुष्टो भक्षितुम् च समाययौ गार्ग्यो गणेशमन्त्रेण मन्त्रितं जलमाक्षिपद जलस्पर्शजपुण्येन गार्ग्यदर्शनजेन सह धर्मधृक् राक्षसो जातिस्मरस्तत्र बभूवः ततोधिकेतसंयुक्तः स रुरोदप्रणम्यदम् जगाद जगादप्राञ्चलिं बद्ध्वा हाहा हाः काररवाकुलः हा, धर्मदृगुवाज रक्ष मां मुनिशार्दूलगाणपत्यमहायशाः त्वत्पादप्रवणं गार्ग्य मोचयाशु भवार्णवाद ततः स सर्ववृत्तान्तम् कथयामास राक्षसः पूर्वजन्मभवम् तस्मै गार्ग्याय भयसङ्कुलः त्वदीयदर्शनेनैव मन्द्रितेन जलेन च जातिस्मरत्वमापन्नो दुःखम् ते कथयाम्यहम् श्रुत्वा शरणगं दयायो कुदो महामुनिः गणेश नाम मन्त्रं स ददौ तस्मै हि दावकं जगादत्तमहायोगी जप त्वं नित्यं तथा तुलस्या वै कृतं स्तोत्रं पठस्व च एव मुक्त्वा परमपावनः दुष्टो नित्यं तथा चक्रे दुःखं दृष्ट्वा दयाकुलः तदः क्षुधा सुशान्ता वै बभूवे तस्य दुर्मदेः रोगहीनः सशक्रश्च अंदे अन्ते सोपि जगाम जगामदुःखवर्जितः तत्र योगस्वभावेना भजद्विग्नेश्वरं विधे यदत्ते सर्वं सङ्क्षेपेण चरित्रकं तुलसीवर्जने भूतं सर्वसंशयनाशनं तुलसीं गणनाधाय समर्पयदि यो नरः स चाण्डालो न सन्देहो नारकी भूमि संस्थितः वंशहानिर्भवे तस्य लक्ष्मी नाशस्तथाविधे रोगाद्याः पीडितोत्यन्तमन्दे नरकगो भवेद तस्य स्पर्शं न कुर्यात्ककृत्वा स्नानं समाचरेत् स चैलस्नान चेत् ज्ञात्वा पापी सदा भवेद् नाम तस्य प्रजानाथ न ग्राह्यं पापदायकं बहुनात्र किमुक्तेन पापरूपः वैस्मृतः इदं ते कथितं सर्वं पृच्छते च यथा तथं किं भूयश्चरित्रं वदसाम्प्रतं ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते तुलसी समर्पणवर्जनवर्णनं नामत्र यस् त्रिंशोऽध्यायः ओम्